श्रीमद्भागवत् महापुराणं दसंस्कन्धम् अथैकपञ्चाशत्तमोऽध्यायः काल्यमन्का भस्महोना मुचकुन्दकी कथा श्रीशुकुवाच तं विलोक्य निष्क्रान्तम् उध्यानमिवोडुपं दर्शनीयतमं श्यामं पीतकौशेयवाशं श्रीवस्वक्षसम्भ्राजन् कौतुभामुक्तकन्धरम् पृतुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणं नित्यप्रमुदितं श्रीमन्सुकपोलं शुचिस्मितं मुखारविन्दं बिभ्राणं स्मरन्मकरकुण्डनं वासुदेवो हयमिति पुमा श्रीवत्सलासनः चतुर्भुजोरविन्दाक्षोवन्माल्यतिसुन्दरः लक्षणैनारदप्रोक्तैर्नाल्यो भवितुमर्हति निरायुधञ्चलन् पद्भ्यां योस्येन निरायुध इति निश्चिन्त्यपवनः प्राद्रवन्तं पराङ्मुखम् अन्वधावजघृक्षुस्तं दुरापमपि योगिनां हस्तप्राप्तमिमात्मानं हरिणाश पदे पदे नेतो दर्शयता दूरं यवनेशोदृकन्दरं पलायनं यदुकुले जातस्य तव नोचितं पन्ननुंगतो शपन्ननुगतो नैनं प्रापाहताशुभ एवं क्षिप्तोऽपि भगवान् प्राविसद्गिरिकन्दरं सोऽपि प्रविष्ट तत्राण्यं शयानं ददृशे नन्वसौ दूरमाणीयं शेते मामीह साधुवन् इति मत्वा पदासमतादयन् मूढस्तं पदा समताडयन् स उत्थाय चिरं सुप्तशनैरुन्मील्यलोचने दिसो विलोकयन् पार्श्वेतमद्राक्षीदवस्थितं स दृष्टिपातेन भारत देहजेनाग्निना दग्धो भस्मसादभुवत्क्षणात् राजवाच को नां स पुमान् ब्रह्मण् कश्च किं वर्ययेव च कस्माद्गुहं गतशिष्ये किं तेजो यवनार्दनः शेषु उवाच स युक्ष्वाकुकुले जातो मान् धात्रीतनयो महान् मुचुकुन्द इति ख्यातो ब्रह्मण्य सत्यसङ्गरः स याचितःसुरगणैरिन्द्राद्यैरात्मरक्षणे असुरेभ्य परित्रस्तैतद्रक्षां शोकरोचिरं लब्धा लब्धागुहं ते स्वलं मचुकुन्द मथा ब्रुवन् राजन्विरमतां कृत्स्याद्भवान् नरलोके परित्यज्य राज्यं हितकण्टकम् अस्मान् पालितो वीरकामास्ति सर्वमुबुज्झिताः सुता महिष्यो भवतो ज्ञातयो मात्यमन्त्रिणः प्रजास्ततुल्यकालीयानाधुना सन्ति कालिताः कालो बलीयान् बलिनां भगवानीश्वरो ययः प्रजाकालयते क्रीडन् प्रशुपालो यथा पशुन् वर्णं वृष्वभद्रं तेरिते कैवल्यमद्य एक एक एवैश्वरस्तस्य भगवान् विष्णुरव्ययः एवमुक्ता स वै देवान् अभिवन्द्य महायशाः अशेष्ट गुहाविष्टो निद्रया देवदत्तया स्वापं यातं यस्तु मध्ये बोधये त्वामचेतनः स त्वया दृष्टमात्रस्तु भस्मीभवतु तत्क्षणात् यवने भस्मसानीते भगवान् सा तुतर्शव आत्मानं दर्शयामास मचुकन्दाय धीमते तमालोक्य घुनश्यामं तीतकौशेयवाससं श्रीवस्वक्षसं भ्राजन् कौसुभेन विराजितं चतुर्भुजं रोचमानं वैजयन्त्या च मालयां चारु प्रसन्नवदनं प्रेक्षणीयं नृलोकस्य सानुरागस्मिते क्षणम् अपि च वयं वयसम्मत्तमृगेन्द्रोदारविक्रियम् पर्यपृच्छन् इवतेजसा तस्य को भवानीह सम्प्राप्तो विपुने गिरिगह्वरे पद्भ्यां पद्मपलाशाभ्यां वितरस्योरुकण्टके किस्मित्तेजाञ्जस्विनां तेजो भगवान् वा विभावशु सूर्यसोमो महेन्द्रो वा लोकपालोपरूपि वा नन्दे त्वाम् देवदेवानां त्रयाणाम् पुरुषशमं यद्बाधते गुहाध्वान्तं प्रदीप शुश्रूसतामम्बलिकम् अस्माकं नरपुङ्गव स्वजन्मकर्मगोत्रम् वा कथ्यतां यदि रोचते दयं तु पुरुषव्याघ्र ऐक्ष्वाकाक्षत्रबन्धवः मुचुकुन्द इति प्रोक्तो यो नास्वात्मजप्रभुम् क्षीरप्रजागरश्रान्तो निद्रयोपचेन्तेन्द्रियः सयेऽस्मिन् विजने कामं केनाप्युत्थापितोऽधुना सोऽपि भस्मीकृतो नूनम् आत्मीयेनैव पाप्मनाम् अनन्तरं भवा श्रीमान् लक्षितो मित्रसातनः तेजसा ते विषयेण भूरि द्रष्टुं न शक्नुमः अतौजसो महाभागमाननीयोऽसि देहिनाम् एवं सम्भाषितो राज्ञा भगवान् भूतभावनः तत्याह प्रहसन्वाण्या मेघनाद गभीरया